नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति अत्र किञ्चित् पापपुण्यविषये किञ्चित् वक्तुमिच्छामि तत्र व्यासः इति महर्षियः आसीत् तेन अष्टादशपुराणानि लिखितानि तर्हि तत्र तेषु पुराणेषु बहूनि काल्पनिक अथवा बह बह्व्यः काल्पनिकः काल्पनिककथाः तत्र आसन् परन्तु अन्ततो गत्वा तस्य सन्देशः कः व्यासस्य सन्देशः कः अन्ततो गत्वा इति चेत् तेन अष्टादशपुराणेषु तत्र व्यासस्य वचनद्वयं अष्टादशपुराणेषु व्यासस्य वचनद्वयं परोपकारः पुन्याय पापाय परपीडनम् परस्य उपकारं कुर्मः चेत् तद् पुण्याय परस्य अपकारं कुर्मः चेत् तत् पापाय तर्हि इदानीम् प्रश्नः अस्ति व्यासेन पुराणानि किमर्तम लिखितानि तस्य अर्थः सः तु महान् पण्डितः आसीत् ज्ञानी आसीत् तर्हि तेन पुराणानि किमर्थं लिखितानि इत्युक्ते तदर्थं पुराणं नाम किम् इति अस्माभिः अवगन्तव्यम् पुराणेषु काल्पनिककथाः का भवन्ति परन्तु तेषां पठनेन अस्माकं नैतिकतायाः शिक्षा भवति शिक्षा लभते नैतिकतायाः शिक्षा तेभ्यः पुराणेभ्यः लभ्यते तदेव तत्र मुख्यवार्ता अस्ति यद्यपि कथाः काल्पनिकाः तथापि तत्र मूल मूलसन्देशः कः इति चेत् एतेषां पठनेन जनानां बोधः भवतु इति तत्र नैतिकतायाः विषये बोधः भवतु इति एव तत्र शिक्षागतमूल्यः अस्ति पुराणस्य शिक्षा शिक्षागतमूल्यं वर्तते अतः तादृशं वयं पुराणम् इति वयं वदामः तस्य अन्ततो गत्वा तस्य लक्ष्यं किमिति चेत् केवलं वचनद्वयमेव परोपकारः पुण्याय परपीडनं पापाय इत्येव सः वक्तुमिच्छति तदर्थमेव तानि पुराणानि लिखितानि तर्हि शिक्षां दातुम् इच्छति तस्मिन् काले यदा सः सः आसीत् तदानीं समाजे नैतिकतायाः महत्त्वं प्रायः न आसीत् इति कृत्वा तस्य बोधः भवतु इति कृत्वा तेन पुराणानि लिखितानि इदानीं काव्यम् इत्युक्ते वयं सर्वे काव्यं नाम इति वयं सामान्यतया जानीमः तर्हि वाक्यं रसात्मकं काव्यं काव्येषु काव्येषु अपि काल्पनिककथाः भवन्ति परन्तु तेषु रसं रसः भवति रसः भवति सरसता भवति तेषां पठनेन वा श्रवणेन वा मनसि कश्चन आनन्दः जायते रुचिकरं रुचिकरं भवति काव्यं परन्तु काव्येषु नैतिकतायाः शिक्षा सर्वदा भवति इति नास्ति कदाचित् भवेत् कदाचित् न भवेत् इत्युक्ते तत्र प्राधान्यं काव्ये प्राधान्यं नैतिकतायाः प्राधान्यं नास्ति तत्र काव्येषु प्राधान्यं किम् इति तत्र जनाः जामिताः भवन्ति प्रतिदिनं कार्यं कृत्वा कृत्वा अतः तस्मात् किञ्चित् विरामं विरामः भवतु तेषां मनसि मनसि कश्चन तत्र भिन्नचिन्तनं भवतु इति कृत्वा वाक्यं यत्र रस रसस्य उत्पात् उत्पत्तिः भवति आनन्दः जायते तद् वयं इति वदामः तत्र शिक्षा भवति इति नास्ति सर्वदा तत्र नैतिकतायाः शिक्षा भवति इति नास्ति तस्मिन्नेव प्रसङ्गे इति कथा इत्यपि क इति इति कथा इत्यपि किञ्चित् अस्ति इति कथा इति यद्वयं हिस्ट्रि इति वयं वदामः इति कथा इत्युक्ते पुराकथा अथवा इतिवृत्तं पुरावृत्तम् इति वदामः आङ्ग्लभाषायां हिस्ट्रि इति वयं वदामः तत् तर्हि इति कथा इत्युक्ते का इति चेत् तत्र घटनायाः पञ्जीकरणमेव इति कथा यता यथा घटना जाता तस्य एव उल्लेखः भवति इतिकथायाम् इतिकथायां नैतिकतायाः शिक्षा कदाचित् भवति कदाचित् नापि भवति परन्तु तत्र तत्र प्राधान्यता नास्ति शिक्षा भवतु इति प्राधान्यता नास्ति यथा घटना जाता तस्य एव पञ्जीकरणं घटनायाः पञ्जीकरणं तस्याः पञ्जीकरणम् इति कथा इति वदामः अपि तु इतिहासः इतिहासः इतिहासः इति तु भिन्नः विषयः अस्ति इति कथायाः कश्चन भागः यत्र शिक्षायाः शिक्षा, शिक्षा भवति नैतिकतायाः शिक्षा यत्र भवति इति कथा इति कथायाः कश्चन भागः यत्र शिक्षा भवति तदेव इतिहासः इति वयं वयं वदामः इतिहासः इत्यस्य आङ्ग्लभाषायां शब्दः नास्ति अनुवादः नास्ति इदानीम् इतिहासः इत्युक्ते राम महाभारतं महाभारतम् इतिहासः महाभारतम् इति कथा इति नास्ति तर्हि धर्मार्थकाममोक्षार्थं नीतिवाक्यसमन्वितं पुरावृत्तकथायुक्तम् इतिहासः हा प्रचक्ष्यते इत्युक्ते इतिहासे नीतिवाक्यस्य समन्वयः भवति धर्म धर्मार्थकाममोक्षार्थम् इत्युक्ते तत्र जनानाम् उन्नतिः भवतु तत्र मनुष्यस्य शारीरिकस्तरं वर्तते मानसिकस्तरं वर्तते मानसाध्यात्मिकं स्तरं वर्तते अपि च आध्यात्मिकस्तरः अपि वर्तते इत्युक्ते स्तरः शारीरिकस्तरः मानसिकस्तरः मानसाध्यात्मिकस्तरः आध्यात्मिकस्तरः इति तत्र चत्वारः स्तरः सन्ति तर्हि तत्र एतेषां स्तराणामेव नाम अस्ति धर्म अर्थकाममोक्ष तर्हि एतेषु स्तरेषु एकस्मात् स्तरात् अग्रिमस्तरे अस्माकम् उन्नतिः भवतु इति कृत्वा तत्र इतिहासः इति, हा इति नीतिवाक्यसमन्वितम् अस्ति तर्हि इतिहासस्य पठनेन अस्माकम् अग्रगतिः भवति यतोहि तत्र अस्माकं शिक्षा भवति नैतिकतायाः शिक्षा भवति अत्र इतिहासे तर्हि व्यासेन तु अष्टादशपुराणानि लिखितानि तेषु पुराणेषु काल्पनिककथाः का भवन्ति परन्तु तस्मात् अस्माकं नैतिकतायाः बोधः भवति शिक्षा भवति तर्हि व्यासेन किमुक्तं परोपकारः पुण्याय तर्हि परोपकारः पुण्याय इत्युक्ते यद् कर्म वयं कुर्मः तेन कर्मणा अन्यस्य उन्नतिः भवति तदेव परोपकारः तादृशपरोपकारेण पुण्यं लभ्यते अत्र तु नैतिकतायाः विषयः नास्ति यदा वयं पुण्यं पापम् इति वदामः तत्र नैतिकतायाः विषयः नास्ति नैतिकतायाः विषयः सहजनैतिकतायाः विषयः इत्युक्ते ऋतं ऋतं वक् यदा वयं ऋतं वदामः तदानीं सर्वदा अन्यस्य उन्नतिः भवति इति नास्ति कदाचित् भवेत् कदाचित् नापि भवति अतः सहजनैतिकतायाः सम्बन्धः पापेन ना पुण्येन ना नास्ति सम्पर्कः नास्ति तर्हि पुण्यं नाम किं पुण्यम् इत्युक्ते यद् वयं कुर्मः तेन कर्मणा अन्यस्य उन्नयनं भवति तदेव वयं पुण्यम् इति वयं वदामः अपि च यद् वयं कुर्मः तेन कर्मणा अन्यस्य अधोगतिः यदा भवति तदानीं वयम वदामः परापकारः परस्य अपकारः तदेव पापम् इति वदामः परोपकारः पुण्याय पापाय परपीडनम् अतः किं स्मर्तव्यम् इति चेत् सर्वदा वयं केवलं ऋतं वदामः शुद्धाचरणं अच्छरनं, शुद्धाचरणं कुर्मः तर्हि तेन पुण्यं न लभ्यते यदा वयम् अन्यस्य कृते किमपि कुर्मः तदानीमेव पुण्यं लभ्यते येन अन्यस्य उन्नतिः भवति ये यदा वयं किमपि कुर्मः तेन अन्यस्य उन्नतिः भवति तदानीमेव पुण्यं लभ्यते नो चेत् न लभ्यते तदेव शुभसंस्कारः इति वयं वदामः यदा वयं कोऽपि पुरुषः सर्वदा तत्र भगवतः चिन्तनं करोति इत्युक्ते वयं चिन् वयं वक्तुं सर्वदा पूजाम करोति सर्वदा पूजां करोति तर्हि तेन शुभसंस्कारः भवति कुसंस्कारस्य क्षयः भवति आध्यात्मिक उन्नतिः अपि भवति परन्तु तेन पुण्यं न लभ्यते यावत्पर्यन्तम् अन्यस्य उन्नयनं न भवति तावत्पर्यन्तं पुण्यं न लभते तर्हि इदानीं मया उक्तं यद् सहजनैतिकतायाः सम्बन्धः पापेन पुण्येन न भवति तर्हि यदि कोपि मनुष्यः ऋतं वदति तर्हि तस्मिन् तत्र महान् विषयः नास्ति खलु तत्तु स्वाभाविकः विषयः अस्ति ऋतं ऋतं वक्तव्यम् इति स्वाभाविकः विषयः इति इति अस्ति खलु तत्र उचित आचरणम् इति स्वाभाविकविषयः अस्ति तत्र पशुः अपि एवमेव करोति प्रकृतेः नियमानां पालनं करोति पालनं करणीयम् अस्माकं दायित्वम् अस्ति स्वाभाविकम् अस्ति यथा वयं भोजनं कुर्मः तद् भोजन भोजनखादनं भोजनम् इति स्वाभाविकविषयः अस्ति अथवा वयं स्नानं कुर्मः तदपि स्वाभाविकः विषयः अस्ति एवमेव ऋतं वदामः तदपि स्वाभाविकः विषयः अस्ति तस्य यदा वयं ऋतं वदामः तेन अस्माकं पुण्यं लभते इति नास्ति तर्हि सहजनैतिकतायाः सम्बन्धः पापेन पुण्येन नास्ति यदि वयं सहजनैतिकतायाः पालनं न कुर्मः तर्हि पशुभ्यः अपि अधः अधोगति अधोगतिः लभते मनुष्यः मनुष्य तु बुद्धिमान् जीवः वर्तते अतः मनुष्यः किमर्थं पशुभ्यः अपि अधोगतिं प्राप्तुम् इच्छति मनुष्यः तु अग्रगतिं प्राप्तुमेव इच्छति मनुष्यः मनुष्यस्थानात् देवतास्थानं प्राप्तुम् इच्छति तर्हि तत्र मार्गः कः तु मार्गः अस्ति अस्माकं योगनिष्ठजीवनं यदा योगनिष्ठजीवनस्य पालनं कुर्मः तदनुसारं वयं गच्छामः तदानीम् आनन्दं लभते शान्तिं शान्ति शान्तिं शान्तिः शांती लभते आनन्दः लभते तर्हि मनुष्यः अस्मिन् जगति सुखं न वाञ्छति मनुष्यः शान्तिम् इच्छति इत्युक्ते तत्र लौकिकवस्तुभ्यः सुखं लभ्यते इदानीं सुखं तदनन्तरं दुःखं पुनः सुखं पुनः पुनः दुःखम् इत्येवं वयं प्राप्नुमः परन्तु मनुष्यः किम् अन्ततो गत्वा किम् इच्छति इति चेत् शान्तिम् इच्छति तर्हि शान्ति शान्तिः प्राप्तव्या चेत् किं करणीया इति चेत् तत्र आत्ममोक्षार्थं जगत्हिताय प्रयासः अस्माभिः करणीयः तर्हि अस्माकं शरीरं बहु क्लेशानन्तरम् अस्माभिः शरीरं प्राप्तम् तर्हि तत्र यदि शरीरं प्राप्य अपि साधनां न न कुर्मः तदानीं पशुभ्यः अपि अधः वयं पतामः वसौ तु सामर्थ्यं नास्ति शारीरिकसामर्थ्यं मानसिकसामर्थ्यं नास्ति साधनां कर्तुं परन्तु मनुष्येषु तु तादृशसामर्थ्यम् अवश्यं वर्तते खलु अस्माकं तु सामर्थ्यमस्ति तर्हि सामर्थ्यमस्ति तथापि सामर्थ्यस्य प्रयोगं न कुर्मः तर्हि तत्र अग्रिमजन्म अग्रिमजन्मनि पशुभ्यः अपि अधः वयं भवामः अतः अत्र व्यासस्य वचनद्वयं वयं स्वीकृत्य वयं पश्यामः पापं पुण्यं तस्य सहजनैतिकतया सह को न कोऽपि अत्र मूलविषयः सेवा सेवया वयं यदा वयं साधकः वयं यदा वयं साधकाः स्मः तदानीं वयं सेवां कुर्मः किमर्थं कुर्मः पुण्यं प्राप्तुं सेवां न कुर्मः वयं केवलं परमात्मा तृप्तः भवतु इति कृत्वा वयं सेवां कुर्मः तर्हि तया सेवया पुण्यं लभ्यते इति तु भिन्नवार्ता परन्तु वयं किमर्थं सेवां कुर्मः इति चेत् सेवया अस्माकं मनः वर्धते सेवया अस्माकं मनः शुद्धं भवति मनसि ये ल्मिषाः सन्ति ये मलिनाः मलिनाः सन्ति क्लेशाः सन्ति तेषां नाशः भवति सेवया अतः अस्माभिः प्रष्टव्यं प्रतिदिनम् अहं किमपि सेवां करोमि वा न वा तर्हि इदानीं सेवा चतुर्दा वर्तते सेवाचतुर्दा वर्तते क्षत्रियोचितसेवा वैश्योचितसेवा शूद्रोचितसेवा विप्रोचितसेवा इत्युक्ते अन्यं प्रति योग योगनस्य जीवनम् इत्यस्य विषये वयं वदामः सात्विकाहारस्य विषये वयं वदामः एतादृशसेवा एव विप्रोचितसेवा अनेन लाभः निरन्तरं भवति अनेन कस्यचित् पुरुषस्य कस्यचित् मनुष्यस्य सं जीवनं सम्पूर्णतया परिवर्तते तर्हि तत्र पशुजीवनात् मनुष्यजीवनपर्यन्तं उन्नयनं भवति एतादृशसेवया क्षत्रियोचितसेवा इत्युक्ते कस्यचित् सहायं करणीयं तस्य रक्षा करणीया कस्यचित् मनुष्यस्य रक्षा रक्षां यदा वयं कुर्मः तदानीं तत्तु क्षत्रियोचितसेवा वैश्योच् उचितसेवा वैश्य उचितसेवा इत्युक्ते यदा कस्यचित् मनुष्यस्य कृते वयं भोजनं दद्मः अथवा धनं दद्मः सहायं कुर्मः तद् वैशोचितसेवा वैशोचितसेवया तु निरन्तरं निरन्तरं निरन्तरीत्या निवारणं भवति इति नास्ति कश्चन पुरुषः बुभुक्षितः अस्ति तस्य कृते इदानीं भोजनं दद्मः चेत् पुनः पुनः तस्य बुभुक्षा भवति तर्हि पुनः भोजनं दातव्यं भवति परन्तु वैश्योचितसेवा अपि आवश्यकी अस्ति यदि अस्माकं पुरतः कश्चन बु बुभुक्षितः वर्तते तर्हि तस्य कृते वयं भोजनम् अवश्यं दद्मः अनन्तरमस्ति शूद्रोचितसेवा शूद्रो उचितसेवा इत्युक्ते शारीरिकरीत्या वयं कष्टम् अनुभवामः अन्यस्य कृते तर्हि कुत्रचित् गत्वा वं वै, वैद्यशालां गत्वा तत्र रुग्णाय वयं सेवां कुर्मः शारीरिकरीत्या तत्तु शुद्रोचितसेवा अतः चतुर्धा सेवा वर्तते तत्र यत्किमपि वयं कर्तुं शक्नुमः वस्तुतः सर्वमपि अस्माभिः कर्तव्यम् इत्युक्ते वय करणीया क्षत्रोचितसेवा करणीया वैशोचितसेवा करणीया शुद्रोचितसेवा करणीया अन्ततो प्रतिदिनम् अस्माभिः सेवा करणीया मया अद्य किं इत्युक्ते प्रातःकालात् रात्रिपर्यन्तं केवलं मम कृते एव अहं जीवामि चेत् तत् सम्यक् नास्ति अन्यस्य कृते चिन्तनं करणीयम् अन्यस्य कृते किञ्चित् अपि वयं कुर्मः चेत् तत् सेवा वर्तते ततः अग्रे शक्नुमः इत्युक्ते प्रथमतया अस्माकं मनसि एतादृशविचारः आगन्तव्यः यत् मया किमपि करणीयम् अन्यस्य कृते यतोहि एतादृशविचारः न आयाति एव अस्माकं मनसि सामान्यतया यदा पशुजीवनं कुर्मः तदानीम् एतादृशविचारः न आयाति सर्वदा मम कृते एव अहं जीवामि मम कृते किम् तस्य विषये एव अहं चिन्तयामि परन्तु अन्यस्य कृते किम् इति कदापि न चिन्तयामः सर्वदा मम सौकर्यं किम् अस्ति इत्येव चिन्तयामः तर्हि अत्र योगनिष्ठजीवने मुख्यशिक्षा का इति चेत् अन्यस्य कृते वयं चिन्तयामः यदा अन्यस्य कृते चिन्तयामः तदानीम् अस्माकं मनसि ये क्लेशाः भवन्ति ते क्लेशाः नष्टाः भवन्ति यदा ते नष्टाः भवन्ति तदानीम् आध्यात्मिकजीवने अस्माकम् अग्रगतिः भवति यावत्पर्यन्तं केवलं साधनां कुर्मः परन्तु सेवां न कुर्मः तदानीम् अग्रगतिः न भवति तर्हि अस्माकं तु पुण्यं पुण्यं प्राप्तव्यम् इति कृत्वा अहं सेवां करोमि इति नास्ति वयं किमपि प्राप्तुं न इच्छामः यदा वयं सेवां कुर्मः निस्वार्थसेवां कुर्मः केवलं सेवार्थं सेवां कुर्मः न तु किमपि प्राप्तव्यम् इति नास्ति परमात्मा तेन तृप्तः भवतु इति तु विषयः अस्ति परन्तु अहं किमपि न इच्छामि अहं किमपि शारीरिकरीत्या अथवा मानसिकरीत्या अथवा आध्यात्मिकरीत्या किमपि न इच्छामि अहं केवलम् अन्यस्य लाभः भवतु तेन परमात्मा तृप्तः भवतु इति एव मम मम लक्ष्यम् अतः अहं केवलं केवलं सेवार्थं सेवां करोमि न तु किमपि प्राप्तव्यम् इति तर्हि अत्र अस्माभिः सर्वैः चिन्तनीयं कथं कथम् अहं सेवां कर्तुं शक्नोमि इति किञ्चित् लघुविषयः अपि भवितुम् अर्हति तत्रापि वयं सेवां कुर्मः यता वयं कुत्रचित् रेल् याने गच्छामः तदानीम् अस्माकं पार्श्वे कश्चन अस्ति चेत् तेन सह यदा सम्भाषणं कुर्मः तदानीं आहारस्य विषये सात्विकाहारस्य विषये अथवा योगीवने ये ये अंशाः सन्ति तेषां विषये वयं सम्भाषणं कर्तुं शक्नुमः तदानीं ते ते अपि चिन्तयन्ति ओ एवमपि अस्ति एवमपि वयं जीवितुं शक्नुमः एतादृशः विषयः अपि अस्ति इति जानन्ति तत्र तादृशपुरुषस्य यदा इच्छा जागरिता भवति तर्हि वयं न जानीमः सः तदानीं सिद्धः भवितुमर्हति अस्मिन् मार्गे प्रवेष्टुम् अतः अस्माभिः प्रयासः करणीयः तेन अस्माकं समयस्य अपि उचितप्रयोगः भवति समयस्य व्ययः न भवति एवमेव सम्भाषणम् अन्यस्य विषये सम्भाषणम् अन्यविषये सम्भाषणं कुर्मः चेत् समयस्य व्ययः भवति तथा तथा मा भवतु समयस्य उचितप्रयोगः भवतु तर्हि उचितप्रयोगः अस्ति विप्रोचितसेवा तस्मिन् समये विप्रोचितसेवायाः प्रयोगं कर्तुं शक्नुमः सेवां कुर्मः वस्तुतः सेवां कुर्मः इति अद्यतनविषयः अस्ति तर्हि इदानीमहं किञ्चित् uh, स्क्रीन् शेर् करोमि कोपि तत्र किमपि वक्तुमिच्छति वा नमस्कारः भगिनी एकः प्रश्नः अस्ति यदा जगति किमपि सेवां वा तस्यापि सहायं कुर्मः तदानीं मनसि मम कृते किं लभति किं लभते एतत् सेवा एतादृशचिन्तनमपि से आगच्छति कथं तत् चिन्तनस्य निवारणं कुर्मः यत्किमपि कार्यं कुर्मः मनसि तु इदानीं नास्ति सर्वत्र कर्मं कुर्मः चेत् फलं निश्चित निश्चयरूपेण भवति एव तादृशचिन्तनस्य कथं तादृशचिन्तनस्य बाव, नासकरणीयं हा तदर्थमेव ब्रह्मचर्यभावस्य प्रयोगः करणीयः इतिते यत्किमपि वयं कुर्मः भ्रमणः भ्रमणः कृते कुर्मः यद् यद् कुर्मः तदपि ब्रह्म यस्य कृते कुर्मः तदपि ब्रह्मा, कार्यमपि ब्रह्म फलमपि ब्रह्म यत् फलं यत् फलं लभते तदपि ब्रह्मण ब्रह्म ब्रह्मणः कृते एव इति भावस्य अभ्यासं यदा कुर्मः तदानीं मनसि तादृशविचाराः न भवन्ति यद् मम कृते किं लभते इति विचारः नायाति तर्हि ब्रह्मचर्यभावस्य अभ्यासः करणीयः यदा ब्रह्मचर्यभावस्य अभ्यासं कुर्मः तदानि मम पुरतः यः यः मनुष्यः अस्ति स तु ब्रह्मणः स्वरूपं वर्तते अतः यदहं करोमि अहं ब्रह्मणः कृते करोमि परमपुरुषस्य कृते अहं करोमि तर्हि यस्य कृते करोमि तदपि तदपि ब्रह्म यत् कर्म क करोमि तदपि ब्रह्म फलमपि ब्रह्म इति एतादृशभावस्य अभ्यासः करणीयः एवं कुर्मः चेत् तत्र मनसि तादृशविचारः नायाति इति अभ्यासेन एव भवति भगिनि अभ्यासः करणीयः तत्र योगनिष्ठजीवने प्रवेशः अभवत् इदानीं मम लक्ष्यमस्ति परमपुरुषः तर्हि प्रथमतया मम मनसि विश्वासः भवेत् पलिष्यति इति विश्वासः भवेत् प्रथमतया अत्र अस्मिन् मार्गे मया मया अस्मिन् मार्गे मया आगतम् अत्र अहं साफल्यं प्राप्नोमि तदर्थं मया किं किं कर्तव्यम् इति चेत् परमपुरुषे मम मनः सर्वदा विलीनं भवेत् एवम् एवं, एवं रीत्या अभ्यासं यदा वयं कुर्मः तर्हि क्रमेण एतादृशविचाराः मनसि न आगच्छन्ति अपि च अपि वयं कुर्मः खलु यदा साधनां कुर्मः तर्हि क्रमेण क्रमेण क्रमेण अस्माकं मनः वर्धते वयं स्वयम् अनुभक्तुं शक्नुमः अस्माकं स्वयम् अनुभवः अस्ति यत् मम मनसि सेवायाः भावः पूर्वं नासीतेव तर्हि इदानीं क्रमेण सेवायाः भावः आगच्छति तर्हि यदा सेवायाः भावः आगच्छति तदानीम् अन्यस्य कृते यदा किमपि कुर्मः तर्हि केवलम् आनन्दः लभ लब, लभते न तु अन्यत् किमपि इति केवलं सेवार्थं वयं सेवां तदानीं कुर्मः तर्हि साधना आवश्यकी योगनिष्ठजीवने ये ये यानि अङ्गानि सन्ति तेषां पालनम् आवश्यकम् अनन्तरं ब्रह्मचर्यभावस्य अभ्यासः पि अपेक्षितः एतत् सर्वं कुर्मः चेत् शनैः शनैः मनसि तादृशविचाराः न भवन्ति धन्यवादः तर्हि अस्माभिः किं चर्चितम् इति चेत् अस्मिन् जगति कथं मनुष्यः जीवेत् इति अत्र विषयः अस्ति अस्माभिः उक्तं यत् यत् यत्किमपि कर्म कुर्मः तत्र तु कर्मणः प्रतिक्रिया अवश्यं भवति तादृशप्रतिक्रियाणां भोगः येन पुरुषेण कृतं तेन अनुभोक्तव्यम् एव तस्य निवारणं तत्र कर्मफलस्य निवारणं कदापि न शक्यते मनुष्याः प्रयासं कुर्वन्ति प्रार्थनां कुर्वन्ति अथवा तत्र ग्रहशान्तिं करो कुर्वन्ति अथवा अन्यत् अन्यप्रयासमपि कुर्वन्ति परन्तु यत् कृतं तत् तस्य फलम् अस्माभिः अवश्यम् अनुभोक्तव्यं तत्र केवलं कालावधेः एव परिवर्तनं शक्यते इदानीं कर्मफलस्य आ, तत्र तस्मिन् क्षणे एव अनुभोक्तव्यम् इति तत्र तत् तस्य परिवर्तनं किञ्चित् कर्तुं शक्नुमः परन्तु ग्रहशान्तिद्वारा परन्तु सम्पूर्णतया निवारणं न शक्यते अतः तत्र आ, तत्र प्रार्थनायाः तत्र वस्तुतः प्रार्थनायाः एतादृशप्रार्थनायाः आवश्यकता नास्ति तर्हि अस्माभिः दृष्टं तत्र अग्नौ हस्तं स्थापयामः चेत् तर्हि अग्निद्वारा अस्माकं हस्तः अवश्यं नश्यति दग्धः भवति तस्य निवारणं न शक्यते तर्हि तर्हि पर परमात्मनः उपरि पक्षपातस्य आरोपः अपि वयं कर्तुं न शक्नुमः स तु सर्वं जानाति सर्वज्ञः अस्ति तर्हि स पक्षपातं कदापि न करोति यत् कर्म अस्माभिः कृतं तस्य फलं वयम् अनुभवामः तत्र परमात्मनः परमात्मनः दोषः नास्ति अतः तर्हि यदि वयं प्रार्थनां कुर्मः मम कृते एतद् ददातु तद्ददातु इति यदा वयं प्रार्थनां कुर्मः तदानीं तत्र वस्तुतः दोषारोपणम् अस्ति भवता एतत् कर्तव्यम् आसीत् भवता एतत् न कृतम् इति वस्तुतः वयं न जानीमः यत् अस्माकं कृते किम् अपेक्षितम् इति वयं न जानीमः वयं किमपि पृच्छामः ओ परमात्मा मम कृते एतद् ददातु इति कोऽपि पुरुषः विमानेन कदापि न तेन गतः इति चेत् तेन न गतमिति चेत् तत्र सः पृच्छति ओ परमात्मा अहं विमानेन गन्तुम् इच्छामि कृपया अनुग्रहं करोतु इति परन्तु वयं न जानीमः यत् तद् विमानम् अग्रे गत्वा तत्र अस्मिन् विमाने यदि सः गच्छति चेत् तर्हि नाशः भवितुम् अर्हति विमानः तत्र आकाशे एव दग्धः भवति इति स न जानाति परन्तु परमात्मा जानाति परमात्मा यदि चिन्तयति यद् अयं पुरुषः अस्मिन् विमाने मा मा गच्छतु स दग्धः भवति इति सः न ददाति तादृश इच्छां न ददाति तर्हि अस्माकं लाभदायकमेव अस्ति यतोहि स सर्वं जानाति अतः मम कृते एतद् ददातु तद् ददातु इति वस्तुतः न प्रष्टव्यं तत्र स्तुतेः अथवा प्रार्थनायाः तत्र वस्तुतः स्तुतिः प्रार्थना च निरर्ति निरर्थतिका निरर्थिका अस्ति इत्युक्ते तस्मिन् वयं समयस्य व्ययं कुर्मः चेत् वस्तुतः समयस्य व्ययः एव अस्ति तेन भक्तिः न लभते वास्तविकभक्तिः इति भक्तिः का इति अस्माभिः चिन्तनीयं तर्हि हा तत् तत्र इतः आरभ्य पठामः अत्र हा अग्नौ निमग्नः हस्तः सुचित्रभगिनी पठितुमिच्छति वा भगिनि तत्र स्क्रीन् मध्ये किमपि नास्ति ओ न दृश्यते वा मया शेर् कृतं दृश्यते वा भगिनी आं दृश्यते भगिनि अग्नौ निमग्नः हस्तः अवश्यमेव दहति प्रार्थनायाः परिमाणं कियदपि व्याद्वाम परन्तु हस्तस्य दानं न शक्यते ईश्वर ईश्वरेण हि एतादृशप्रार्थनायाः प्रधानस्य अर्थः स्यात् यत् अग्नेः दाहकशक्तेः दूरीकरणम् अथवा हस्तस्य रचनायाः परिवर्तनं येन अग्निना प्रभावितः न स्यात् दग्धः अपि न स्यात् एतत् न सम्भवति ईश्वरस्य सृष्टौ कोऽपि दोषः नास्ति यतोहि सर्वाणि वस्तूनि लघूनि वा केवलं स्वस्वभावस्य धर्मस्य अनुसरणं कुर्वन्ति अन्यथा प्रतिपदे अभ्यवस्था स्यात् या प्रार्थना ईश्वरस्य पक्षपातस्य स्मरणरूपेण कार्यं करोति सा ईश्वरस्य सृष्टेः नियमानां परिवर्तनं कर्तुं प्रेरयितुं न शक्नोति यहकोपि कोऽपि एवम् आसां करोति यत् ईश्वरः प्रार्थनाद्वारा स्वनियमं परिवर्तयति इति सः केवलं सर्वथा अज्ञानं प्रदर्शयति तत्र दत्तमस्ति ईश्वरस्य सृष्टे तत्र सर्वे जीवान् सर्वे जीवाः ते तेषां स्वधर्मं अनुसरणं कुर्वन्ति यदा अग्नैः धर्मम् अस्ति दहनं तत्र यः कोऽपि अग् अग्निं प्रति हस्तं नयति चेत् अवश्यमेव तत्र हस्तस्य दहनं भवति तत्र न कोऽपि शङ्का परन्तु यदा वयम् एतादृश तत्र दोषारोपणं कर्तुं न शक्यते किमर्थम् अग् मम हस्तः दग्धः जातः इति यदा एतादृशः अग्नेः हस्तं अग्नेः समीपं हस्तं नीत्वा वयमेव तत्र किं कृतम् तस्य कारणम् अस्माकं चिन्तनमेव अस्ति अतः तत्र एतादृश तत्र अग्निकारणाद्वा ईश्वरस्य दोषः अस्ति एतदग् किमर्थं मम हस्तस्य दहनम् अभवत् एतादृशचिन्तनं न करणीयम् किमर्थमित्युक्ते सर्वे तु स्वधर्मस्य अनुसरणं करणीयमेव अतः वयम् एतादृशप्रार्थना कुर्मः एतादृश यत्किमपि कर्मं कुर्मः परन्तु तस्य किमपि कुकर्मः कृत्वा तस्य किमपि विपरिणामा न भवतु इति प्रार्थना यदा कुर्मः तत्तु ईश्वरस्य पृष्टि दोषारोपणरूपेण भवति कथञ्चित् कुकर्मस्य तु कुफलः एव भवति दुष्फलः अतः एतादृश उदाहरणेन दत्तमस्ति यत्किमपि ईश्वरेण सृष्टं तत्सर्वम् उत्कृष्टमेव अस्माकं कृते सम्यक् एव भवति तत्र किमपि परिवर्तयितुं वयं प्रार्थना न कुर्मः अथवा तादृशचिन्तनं यदा प्रार्थनाद्वारा तस्यापि जीवस्य धर्मं परिवर्तयितुं तादृशप्रार्थना न कुर्मः कदाचित् नियमस्य परिवर्तनं भवति चेत् प्रार्थनाद्वारा तत्र अव्यवस्था एव भवति तत्र किमपि ईश्वरस्य है पुन तादृश व्यवस्था इदानीं सर्वं सम्यक् रीत्या चलति खलु तादृशं न भवति एतादृशप्रार्थनाद्वारा यदि सर्वे नियमस्य परिवर्तनं कुर्वन्ति चेत् तत्तु यः एतादृशं चिन्तया एव प्रार्थना करोति तत्तु केवलम् अज्ञानमेव दर्शयति तद् पुरुषस्य वा महिलायाः अज्ञानमेव दर्शयति तदेव करणीयं सम्यक् सम्यक् समीचीनं समीचीनम् इत्युक्ते अत्र यः विषयः उक्तः सः स्पष्टः अस्ति इति मन्ये तत्र परमात्माना व्यवस्था प्रत्येकं वस्तुनः एवमेव तस्य कार्यं भवेत् तस्य धर्मः एवं भवेत् इति व्यवस्था कृता तत् कार्यं करोति अत्र नियमाः के तदनुगुणं प्रकृतिः नियमानां पालनं करोति यदि उपरितः किमपि वस्तु पतति तर्हि अधः एव पतति इति एवं रीत्या तत्र भिन्नभिन्ननियमाः सन्ति तत्र नियमानां लक्ष्यं किम् इति चेत् सर्वजनकल्याणात्मकमेव तत्र इत्युक्ते सर्वेषां कृते एव एते नियमाः सन्ति अनेन सर्वेषां लाभः भवतु अनेन विश्वः सम्यक्तया अग्रगतिं अत्र सम्यक्तया चलतु विश्वः सम्यक्तया चलतु इति एव तत्र तस्य लक्ष्यम् अस्ति अतः तत्र किञ्चित् अस्माकं सुखदायकम् अस्ति किञ्चित् सुखदायकं नास्ति परन्तु अन्ततो गत्वा समग्र समग्रविश्वः तत्र समग्र समग्रजगत् कथमस्ति इति चेत् तत्र यत्किमपि जायते तत्तु सर्वेषां कल्याणार्थमेव अत्र जगत् तु एक एकः एकः विश्वविद्यालयः विद्यालयः एकः विश्वविद्यालयः अस्ति अस्मात् वयं शिक्षां प्राप्नुमः किमर्थं वयम् अत्र वयं सर्वे किमर्थम् अत्र आगताः इति चेत् अत्र आगत्य वयं शिक्षां प्राप्नुमः यदी पूर्वम् अनुचितं कृतं तर्हि तस्य कर्मफलस्य अनुभवेन अस्माकं शिक्षा भवति येन अस्माकम् अग्रगतिः भवति मनः पूर्वावस्थां प्राप्नोति खलु तर्हि यदा वयं प्रार्थनां कुर्मः तदानीं वयं चिन्तयामः अहम् इतोपि सम्यक् जा, जानामि परमात्मा भवतः अपेक्षया अहम् इतोपि सम्यक् जानामि इतः अतः अहं पृच्छामि मम कृते एतत् ददातु भवान् न जानाति इति तथा दो दोषारोपणं न करणीयं यत्किमपि यादृशव्यवस्था तेन तेन कृता तत्तु अस्माकं हिताय एव न तु अहिताय अस्माकं हिताय एव सर्वं कृतम् अतः तत्र भक्तिभावस्य आवश्यकता वर्तते स्तुतेः प्रार्थनायाः अपेक्षया भक्तिभावस्य अपेक्षा वर्तते भक्तिभावः यदा भवति तदानीं वयं अनुभवामः यत् परमात्मा मम सविधे अस्ति मम पार्श्वे अस्ति सर्वदा अस्ति मम सर्वं स्व एव अस्ति इति एतादृशभावः आयाति अतः अस्माभिः अवगन्तव्यम् एतद् अवगन्तव्यं यत् परमात्मा सर्वं जानाति सर्वज्ञः अस्ति सर्वत्र वर्तते तस्य स्पन्दनस्य अनुभवः अस्माभिः प्राप्तव्यः तर्हि तादृश अनुभवं प्राप्य अस्माभिः साधना इदा साधना साधनां कुर्मः तदानीम् अस्माकम् अग्रगतिः भवति मनः अपि शान्तं भवति मनः स्वच्छं भवति शान्तं भवति अस्तु किञ्चित् अग्रे गच्छामः किं तत्र डिम्पल् भगिनी किञ्चित् पठितुमिच्छति वा भगिनि ओके भगिनि प्रकृतिनियम नियमानुसारं प्रत्येकं कर्मणां प्रतिक्रिया भवति येन पुरुषेण कर्म कृतं तेन प्रतिक्रियाः अनुभोक्तव्याः एव अयं नियमः अपरिवर्तनीयः अस्ति अस्य नियमस्य परिवर्तनाय प्रार्थनाकरणं केवलं स्वस्य समयस्य व्ययः एव प्रार्थनादे दैवं न शक्नोति प्रतिक्रियाणां कर्मफलानां अनुभवः च अनिवार्यः अस्ति इट्स् अस्ट् आफ् टैट्ना इस्मथिङ्ग् इन् right that that is only way to find right because whatever we do the karma the phalam uh, we will get right whatever we do so mm -hmm. it cannot change mm -hmm. that is right that is right ha ah. samishana bagni ititte tatra a atra asmakam jivanasya lakshyam kim itichet भक्तिः वर्धनीया परमात्मना सह भक्तिः वर्धनीया सः भवतु इति एव अस्माकं लक्ष्यमस्ति मम किं जायते इत्यत्र मम मम अवधानं नास्ति मम यत्किमपि भवतु नाम अहं केवलं किमिच्छामि इति चेत् सः तृप्तः भवतु तर्हि सः यदा तृप्तः भवति सः सर्वस्य ध्यानं सर्वस्य रक्षणं सः अवश्यं करोति मम रक्षणमपि सः करोति अतः किमर्थं मया मम मम विषये चिन्तनीयं सः पश्यति अतः मम पक्षतः स्थानं नास्ति इति एतादृशचिन्तनेन किं भवति इति चेत् अस्माकम् अस्तित्वम् अस्माकं हृदि परमात्मानं परमात्मानं प्रति भक्तिभावः प्रेमभावः जागरिता भवति अपि च वयं निर्भयत्वं प्राप्नुमः भयं न भवति अस्माकं मनसि यतो हि तत्र यदा वयं यदा वयं प्रार्थनां कृत्वा वदामः एतद् ददातु तद् ददातु तदानीमेव अस्माकं मनसि तत्र क्लेशः भवन्ति यदा यद् वयम् इच्छामः तद् न प्राप्नुमः तदानीं दुःखं भवति क्लेशः भवति क्लेशः भवन्ति परन्तु यदा वयम् एवं रीत्या यत् अहं किमपि न इच्छामि भवान् यत्किमपि ददाति तद् अहं प्रसादरूपेण स्वीकरोमि इति एतादृशभावः अस्ति चेत् तदानीम् अस्माकं मनसि इच्छा नास्ति अतः यत्किमपि सः ददाति वयं सन्तोषेण स्वीकुर्मः अतः मनः सर्वदा शान्तं भवति क्लेशः न भवन्ति खलु मनः मनः अग्रगतिं प्राप्नोति एतादृशचिन्तनेन अपि च भयमपि न भवति सर्वदा अस्माकं भयं भवति खलु ओ अहम् एतत् इच्छामि यदि न लभते चेत् किं भवति यदि एतद् लब् न लभते चेत् किं भवति इति भयं भवति परन्तु साधकस्य जीवने एतादृशभयं कदापि न भवति यदा सः साधनां करोति प्रतिदिनं तदानीं भयमपि अपगच्छति यतोहि सः जानाति यत् परमात्मा अस्ति सः अस्माकं रक्षणं करोति इति वयं जानीमः खलु यतोहि तस्य हृदि परमात्मानं प्रति प्रेमभावः अस्ति प्रीतिभावः अस्ति सः सर्वज्ञः अस्ति सः सर्वं जानाति अतः किमर्थं मया चिन्ता करणीया यदि सः न जानाति परमात्मा न जानाति तदानीं मया चिन्ता करणीया स तु सर्वं जानाति सर्वस्य रक्षणं करोति ममापि करोति इति अतः श्वः किं भवति ह्यः किं जातम् इत्यस्मिन् विषये मम चिन्तनं नास्ति अद्य इदानीं मया किं कर्तव्यं तस्मिन् विषये मम चिन्तनम् परमात्मनः उपरि सम्पूर्णविश्वासः यदा भवति तदानीं कस्यचित् कस्य कस्मिंश्चिदपि विषये चिन्ता न भवति यतोहि सः कल्याणकारी अस्ति हितकारी अस्ति मम तेन सह यः सम्बन्धः अस्ति परमात्मनः सह स तु व्यक्तिगतसम्बन्धः अस्ति यथा मम सम्बन्धः मम मात्रा सह वर्तते पित्रा सह वर्तते तथैव मम सम्बन्धः परमात्मना सह वर्तते सः सम्बन्धः बहु विशेषसम्बन्धः अस्ति तत्र अस्माकं हृदि ता तादृशभावः भवेत् मम सम्बन्धः अस्ति परमात्मना सह ये व्यक्तिगतसम्बन्धः अस्ति सः मम मम हस्तस्य ग्रहणं तेन कृतमस्ति परमात्मना कृतमस्ति अतः यत्र कुत्रापि अहं गच्छामि सः सर्वदा मम सविधे वर्तते अतः किमर्थं मया चिन्ता करणीया स मम रक्षणं करोति इति सम्पूर्णविश्वासः भवे भवेत् एवं रीत्या जीवनं कुर्मः चेत् सर्वदा आनन्ददायकं भवति जीवनं जीवने क्लेशः न भवन्ति सुखकरं भवति परमात्मनः यत्किमपि इच्छा तदेव तदेव अहं करोमि इत्येवं रीत्या वयं गच्छामः चेत् तत्र अस्माकम् अस्तित्वं सम्पूर्णतया परिवर्तते सः अस्माकं रक्षणमपि करोति अस्माकं कृते यत्किमपि आवश्यकं सः अवश्यं ददाति अतः सर्वस्य रक्षणं करोति मम अपि करोति अतः अयं मार्गः आनन्दः आनन्ददायकः अस्ति मार्गः अतः अत्र किम् आन्या, आन्या, इति चेत् स्त्रि परमात्मानं प्रति भक्तिभावः अपेक्षितः अस्ति भक्तिभावः अपेक्षितः अस्ति अतः एतादृशभावेन तत्र अन्य अन्यत् अन्यत् किमपि न अपेक्षितम् इत्युक्ते प्रार्थना अथवा स्तुतिः एतत् सर्वम् अनावश्यकम् यतोहि तया प्रार्थनया अथवा स्तुत्या नियमस्य परिवर्तनं वयं न कर्तुं शक्नुमः इति सर्वदा स्मर्तव्यम् अस्तु तर्हि किं सुचित्रभग्नि अग्रे गच्छति वा अथवा श्रोत्रे ईश्वरस्य गुणानां प्रशंसा वा श्लाघनम् एव स्तुतिः अस्ति श्रुतेः चाटुवचनात् उच्चतरं स्थानं दातुं न यहा अनुग्रहं दातुं समर्थः अपि च यस्मात् किञ्चित् प्राप्तुं शक्यते तस्य उपरि एव चाटुवचनं प्रायः प्रयुज्यते ईश्वरस्य गुणानां गायनं स्पष्टतया तस्य प्रीत्या अभिप्रायेण एव क्रियते अन्यथा सर्वज्ञः ईश्वरः दयालुः सर्वशक्तिमान् परोपकारी च वर्तते तम्प्रति एवं रीत्या कथनेन किमपि प्रयोजनः न एतेषां गुणानां प्रशंसयाः अभिप्रायः ईश्वरस्य विलोभनम् अस्ति येन सः स्वस्य किञ्चित् दयां प्रदधाति सः सर्वशक्तिमान् स्वाधिकारेण कर्मविपाकात् मुक्तिं दद्यात् अतः स्तुतिः अथवा गुणप्रशंसनं केवलं चाटुवचनम् एव अस्य चाटुवचनस्य पृष्ठतः अनुग्रहार्थं प्रार्थना निगुणः अस्ति अतः प्रार्थना इव स्तुतिः द्विगुणा अस्ति तस्यां प्रवृत्तिः अपि समयस्य अपव्ययः एव अत्र अस्ति यदा प्रार्थना प्रार्थना किमपि नियमस्य भङ्गं भवतु इति कृत्वा तद्यथा समयस्य अपव्ययमस्ति तादृशमेव किमपि स्तुतिं कृत्वा ईश्वरस्य गुणगानं किमपि चाटुवचनेन ललितवचनेन यदा कुर्मः तत्र अस्माकम् अभिप्रायः किम् अस्ति मनसि तत् चिन्तनीयं भवति अभिप्रायः यदा वर्तते ईश्वरस्य प्रीतिः भवतु अनन्तरं सः तृप्तः भवति चेत् सः मम कृते किमपि ददाति एतादृशं चिन्तनेन जनाः ईश्वरः भवन्तु दयालु भवान् शब्दशक्तिमान् एतादृशं गुणगानं कुर्वन्ति एतादृशगुणगानं एता वा प्रशंसा तत्र किमपि लाभः न वर्तते ईश्वरस्य ईश्वरस्य प्रति किमपि ईश्वरात् किमपि प्राप्तव्यम् इति चिन्तनया यदा एतादृशं स्तुति जनाः कुर्वन्ति तत्र तु पुनः तादृशमेव अस्ति यद् मम कृते आवश्यकमासीत् परन्तु भवान् न दत्तवान् अतः इदानीमहं किञ्चित् भवतः गुणगानं करोमि एतादृशप्रशंसां करोमि कृपया त्यक्त्वा भवतु मम प्रति यद् आवश्यकं न न यद् आवश्यकं यद् अहम् इच्छामि तद् मम कृते ददातु इति अतः चाटुवचनस्य वा गुणगानस्य पृष्ठतः कीदृशः चिन्तनमस्ति तत् द्रष्टव्यं भवति चाटुवचनस्य वा गुणगानस्य पृष्ठतः एतादृशस्वार्थ किमपि स्वार्थ इच्छा पूरणार्थमस्ति चेत् पुनः तदपि समयस्य अपव्ययमेव तदेव भगिनी बहु समीचीनं भगिनी सम्यक् अस्ति तर्हि अत्र एतेषु परिच्छेदेषु किम् उच्यमानम् इति चेत् यत् अत्र अस्माकं सर्वेषां परमात्मना सह कश्चन सम्बन्धः वर्तते कश्चन सम्बन्धः वर्तते कश्चन विशिष्टः सम्बन्धः वर्तते व्यक्तिगतः सम्बन्धः अपि वर्तते सामूहिकरीत्या अपि सम्बन्धः वर्तते तदेव ओतयोगः पुरोतयोगः इति वयं वदामः तर्हि तत्र केचन जनाः सन्ति ये वक्तुं शक् शक्नुवन्ति यत् अहं मम विश्वासः नास्ति परमात्मनि मम विश्वासः नास्ति इति ते वक्तुं शक्नुवन्ति परन्तु वस्तुतः योगे अस्माकं शिक्षक इति चेत् वस्तुतः अस्मिन् जगति कोऽपि नास्तिकः इति कोपि नास्ति सर्वे जनाः आस्तिकाः एव यद्यपि ते ते वक्तुं शक्नुवन्ति यत् ते परमात्मनि विश्वासं न कुर्वन्ति अथवा ते वक्तुं शक्नुवन्ति यत् तत्र भावजडदायां मम एतादृशभावजडता अहं न इच्छा वा भावजडतां इति एतत् सर्वं ते वक्तुं शक्नुवन्ति परन्तु अथवा तत्र तत्र भिन्नभिन्नमतेषु यत् एवं वक्तु एवं वदन्ति यत् परमात्मा तत्र स्वर्गे वर्तते इत इत इति इत एवं रीत्या स्वर्गः नरकः इति एतादृशविचाराः भवितुम् अर्हन्ति ये शिक्षिताः सन्ति ते वस्तुतः केचन वक्तुं शक्नुवन्ति यत् मम कृते प्रमाणं नास्ति यत् परमात्मा अस्ति वा नास्ति वा इति एवमपि ते भवितुम् अर्हन्ति परन्तु अन्ततो गत्वा यत्किमपि भवतु परन्तु अन्ततो गत्वा लोके कोपि तादृशं न भवितुमर्हति यद् ते नास्तिकाः इति वयं कदापि न वक्तुं शक्नुमः यदा तेषां कष्टं भवति तदानीं ते अपि चिन्तयन्ति तत्र काचित् शक्तिः अस्ति तेषां रक्षणं तादृशशक्ति शक्तिः करोति इति ते अपि कदाचित् तेषां जीवने कदाचित् ते, ते अतः तदानीम् इत्युक्ते अस्मिन् जीवने एव किमपि जायते तदानीं ते अवगच्छन्ति यद् अत्र जगति काचित् शक्ति वर्तते या शक्तिः मम अपेक्षया शक्तिशाली अस्ति शक्तिशालिनी अस्ति इति ते अवगन्तुं शक्नुवन्ति तर्हि वस्तुतः नास्तिकत्वम् इति तत्र क कश्चन नास्तिकत्वम् इति तु मानसिक अवस्था एव तर्हि अत्र अन्ततो गत्वा किं वक्तव्यम् इति चेत् अस्माकं सर्वेषां परमात्मना सह कश्चन सम्बन्धः वर्तते तादृशसम्बन्धः मूलसम्बन्धः अस्ति अस्माकं सम्बन्धः अस्माकं मात्रा सह पित्रा सह यः सम्बन्धः अस्ति तस्यापि अपेक्षया इतोपि पूर्वम् अस्माकं सम्बन्धः परमात्मना सह अतः अत्र किमुक्तम् चेत् केवलं षटुवचनेन अथवा स्तुत्या तत्र परमात्मा न भवति तर्हि तत्र किमस्ति इति चेत् अस्माकं तत्र स्वार्थः अस्ति षाटुवचनेन वयं किमपि प्राप्तुम् इच्छामः तदर्थमेव वयं कुर्मः खलु एतादृशं बहवः कुर्वन्ति षाटुवचनेन अथवा स्तुत्या पृच्छन्ति मम कृते ददातु तद् ददातु इति तर्हि परमात्मा सर्वशक्तिमान् सर्वज्ञः सर्वं जानाति अतः षाटुवचनस्य आवश्यकता नास्ति स्तुत्याः आवश्यकता नास्ति तेन यत्किमपि करणीयं तत् तर्हि सः करोति एव वयं जानीमः यद् अस्मिन् जगति तत्र तृणमपि तस्य इच्छां विना न चलति अतः एवमस्ति चेत् तत् यत्किमपि अस्मिन् जगति जायते त तस्य इच्छागुणम् इच्छानुगुणमेव जायते खलु अतः तत्र प्रार्थनायाः आवश्यकता नास्ति अस्माकं व्यक्तिगतः सम्बन्धः अस्ति तर्हि तत्र भक्तिभावस्य आवश्यकता अस्ति स्तुत्याः प्रार्थनायाः आवश्यकता नास्ति अग्रगतिः प्राप्तव्या चेत् तर्हि तत्र भक्तिभावस्य आवश्यकता नास्ति आवश्यकता अस्ति तर्हि यत् यत् कर्म कुर्मः तस्य कर्मफलम् अस्माभिः भोक्तव्यम् अनुभोक्तव्यमेव तादृशनियमस्य परिवर्तनं न शक्यते प्रार्थना प्रार्थनया अथवा स्तुत्या कर्मफलस्य निवारणं न शक्यते यद् यद् यद् यद् भवे यद् भवति यद् यद्भवेत् तद् अवश्यमेव भवेत् अतः यद् सः इच्छति तद् अवश्यमेव भवति अतः तत्र इदं जगत् वस्तुतः विश्वविद्यालयः अस्ति अत्र परमपुरुषः अस्माकं शिक्षकः अस्ति तर्हि सः अस्मान् शिक्षयति वयम् अत्र आगत्य शिक्षां प्राप्नुमः तस्मात् इत्येव अस्ति तर्हि किञ्चित् अग्रे गच्छामः डिम्पल् भगिनी पठति आम् भगिनी प्रार्थनास्तुति च न निर्तिका भवति तयोः प्रवृत्तिः केवलं समयक्षयः एव यतः साक्षात् याचना चातुवचनं च किमपि साधयितुं न शक्यते भक्ति अथवा अनुरक् रक्तिः तु न तथा भक्तिः का इति वयं पश्यामः भक्तिः इति संस्कृतशब्दः अस्ति भज् इत्यस्मात् धातुतः भज्तिं प्रत्ययं योजयित्वा भक्तिः इति शब्दः निष्पन्नः भक्तिः इत्यस्य भक्त्या आह्वानम् इत्यर्थः भक्तिः न स्तुतिः वा न वाचनं भक्तिः प्रार्थनायाः अपि भिन्ना अस्ति केवलं भक्त्या ईश्वरस्य आह्वानमेव भक्तिः ईश्वरस्य आह्वानस्य उपयोगिता का इति द्रष्टव्यम् अस्ति अणुचैतन्यं सृष्टेः उद्देश्यं यत् सगुणब्रह्मणा निर्दिष्टम् अस्ति तदर्थं सर्वव्यापि भूमाचैतन्यं प्रति प्रत्यागमनस्य प्रयासं कृत्वा अणुचैतन्यं तम् उद्देश्यम् अनुसरति अथवा मुक्तिकामेः भक्तिः आश्रयणीया भूमाचैतन्यं प्रति गन्तुम् एकमात्रः मार्गः अस्ति यत् भूमाचैतन चैतन्यस्य आह्वानं कृत्वा भूमाचैतन्यं प्रति सम्पूर्णतया स्वः समर्पणी समर्पणीयम् समर्पणीयः vadati va kimasya atra 500 aglabashayam <laughs> vadatu so it's saying like uh, uh prakna right ah uh, prayer and stuti serves no purpose and indulging in them is only wasting time since obvious uh begging and flattery is not likely to achieve anything bhakti or devotion however is not like this so what is bhakti to so bhakti is uh, coming from a sanskrit word bhaj lata uh, trim uh, to bhaj dhatu means to call uh, with devotion it is not stuti or flattery it is different from prayer also it is only to call god with devotion and uh, bhakti is like samarpana right that's what it says yeah that is right that is right yeah so uh, i think uh, Uh, we attach with the supreme uh, entity and uh, without uh, any anything in return like just uh, we love God like that that's a true bhakti I think yes but me beautifully said we love God without expecting anything in return there is exactly right yeah अत्र आ, अत्र किमुक्तम् इति चेत् भक्तिः प्रार्थनायाः अपेक्षया स्तुति अपेक्षया भिन्ना वर्तते तर्हि एतेषां भेदः कः इति चेत् यथा भगिनी उक्तवती भक्तौ वयं किमपि प्राप्तुं न इच्छामः किमपि न प्रार्थयामः केवलम् अस्माकं हृदि परमात्मानं प्रति प्रीतिभावः वर्तते केवलं प्रीतिभावाः तस्य व्यक्तीकरणम् एव भक्तिः यदा भक्तेः जाग भवति भवति तदानीं परमात्मानं प्रति अस्माकम् आकर्षणमपि वर्धते अस्माकं यः सम्बन्धः अस्ति परमात्मना सह स तु तत्र टु डैरेक्षनल् वर्तते अस्माकमपि सम्बन्धः अस्ति परमात्मानः अपि अस्माकं कृते सम्बन्धः वर्तते यथा वयं परमात्मानं प्राप्तुम् इच्छामः तथैव सः अपि इच्छति वयं तेन सह ऐक्यं प्राप्नुमः इति ते अपि सः इच्छति परमात्मा अपि इच्छति यदा अस्माकं हृदि भक्तिभावः जागरिता भवति तदानीं परमात्मा अपि तदानीम् अस्माकं सविधे आगन्तुम् इच्छति सः तु झटिति आयाति अस्माकं सविधे यदा अस्माकं हृदि भक्तिभावः अस्ति परमात्मनः हस्तः सर्वदा अस्माकं पार्श्वे एव अस्ति यदा वयम् अहङ्कारेण तिष्ठामः तदानीं हस्तं न पश्यामः त हस्तस्य ग्रहणं न कुर्मः परन्तु यदा अस्माकं हृदि भक्तिभावः जागरितः भवति तदानीं वयं परमात्मा अस्माकं सविरे अस्ति इति वयम् अनुभवामः तस्य हस्तस्य ग्रहणमपि कुर्मः खलु यतोहि यदा भक्तिभावः जागरितः जागरितः भवति तदानीं अहङ्कार अहङ्कारः अहङ्कारः अपगच्छति यतोहि वयं जानीमः यत् तदानीम् अनुभवः अस्ति यद् यत्किमपि जायते अस्मिन् लोके परमात्मा परमात्मा एव सर्वं करोति मम हस्ते किमपि नास्ति इति एतादृशभावः यदा भवति तदानीं पृथक् अस्तित्वमेव न भवति तर्हि तस्य कृपावृष्टिः सर्वत्र अस्ति तस्य यदा तस्य वृष्टिः भवति परमात्मनः कृपावृष्टिः तत्तु सर्वत्र पतति तस्य कुत्रापि तत्र स न चिन्तयति अत्र मा पतेति इति स न चिन्तयति सर्वत्र तत्र प पतति परन्तु यदा वयं तत्र तत्र किम् अहङ्कारस्य छत्री छत्री स्वीकुर्मः अथवा तदानीं वयं किं किं तदानीं तत्र अस्माकं शिरसः उपरि अहङ्कारः यदा वर्तते यथा अहं रामः श्यामः इति तदानीं तत्र परमात्मनः कृपावृष्टिवृष्टेः पात्रं न भवामः तावदेव तर्हि यदा अहङ्कारः निवारिता भवति निवारितः भवति तदानीं तर्हि परमात्मा अस्ति इति वयम् अवगच्छामः अनुभवामः पृथक् अस्तित्वमेव तदानीं न भवति खलु तर्हि यावत्पर्यन्तम् एतादृश पृथक् अस्तित्वं भवति तावत्पर्यन्तं हृदि भक्तिभावः नास्ति यदा पृथक् भक्तिभावः नास्ति तदानीं केवलभक्तिः शुद्धभक्तिः अस्माकं हृदि शुद्धभक्तिः जागरिता भवति तदानीं तत्र अस्माकं लघु अहङ्कारः तत्र व्यवधानं न भवति परमात्मनः साक्षात्कारात् कारार्थं व्यव व्यवहार व्यवधानं न भवति तर्हि यदा जनाः सामान्यतया जनाः पशुजीवनं व्यवहरन्ति तदानीं तत्र अहङ्कारस्य वर्धनार्थमेव ते सर्वदा प्रयासं कुर्वन्ति अतः तत्र सम्पूर्णजीवनं तत्रैव गच्छति अहङ्कारस्य समर्थनार्थं जीवनं गच्छति परन्तु तद् अकृत्वा यदा परमात्मनि ते ध्यानं कुर्वन्ति परमात्मनः आह्वानं कुर्वन्ति भक्तिभावेन तदानीं सः सर्वदा तु अस्माकं सविधे वर्तते सः सहाय सहायं कर्तुं सः उत्सुकः वर्तते यता यथा मया पूर्वमपि उक्तमासीत् यदा शिशुः सः स्वयं क्रीडति कन्दुकेन क्रीडति तदानीं माता चिन्तयति ओ शिशुः स्वयं क्रीडति अतः मम आवश्यकता नास्ति इति कृत्वा माता अन्यत् कार्यं करोति परन्तु यदा शिशुः मातुः आह्वानं करोति माता माता आगच्छ आगच्छ आगच्छति तदानीं तदानीं माता झटिति आयाति खलु एवं रीत्या यदा वयम् आह्वानं कुर्मः तत्र तदानीं तत्र परमात्मा झटिति आयाति यदा आह्वानं न कुर्मः वयमेव अहङ्कारेण सर्वं कुर्मः तदानीं परमात्मा चिन्तयति मम शिशुः सः स्वयं कर्तुम् इच्छति इति कृत्वा सः किमपि न करोति परन्तु यदा आह्वानं कुर्मः तदानीं परमात्मा आगच्छ आगच्छ आगच्छ इति वदति अतः अस्माकं यः अहङ्कारभावः अस्ति तस्य निवारणम् आवश्यकमस्ति तदर्थं तत्र योगनिष्ठजीवनम् आवश्यकमस्ति भक्तिभावः आवश्यकमस्ति भक्षिबा भक्तिभावेन अस्माकम् अहङ्कारस्य निवारणं भवति परमात्मनि विलीनः भव परमात्मनि विलीनः भवामः तदानीं परमात्मा अपि सन्तुष्टः अस्ति सः अपि अस्मान् प्राप्तुम् इच्छति तर्हि यथा वयं चिन्तयामः तद्वत् वयं भवामः तर्हि भक्तिभावः एव अस्माकं जीवनस्य उद्देश्यम् अस्ति भक्तिभावः जीवनस्य उद्देश्यम् अस्ति अत्र यौवनस्य जीवने यानि साधनाङ्गानि सन्ति सन्ति तानि सर्वाणि अत्र सहायकानि सन्ति साधना अनन्तरं साधनाङ्गानि एतत्सर्वं सहायकानि सहायकानि सन्ति एतेषां सहायेन अस्माकं मनः सूक्ष्मं भवति तर्हि यदा मनः सूक्ष्मं भवति तदानीं परमात्मा आकर्षकः अस्ति तेन सह अस्माकं मनः आकृष्टं भवति इति अत्र वक्तुमिच्छामि तर्हि अत्र किञ्चित् अग्रे गच्छामः हा सुचित्रभगि स्वीकरोतु करोति वा मनः यस्मिन् विचारे अथवा सप्तायां प्रति समर्पितं भवति तद्विचारः अथवा तत्सत्ता तद इव भवति अयमेव मनुष्यस्य मनसः स्वभावः अस्ति यथा उदाहरणत्वेन यदि कश्चित् स्वम् उन्मत्तम् इति चिन्तयितुम् आरभत आरभते तर्हि वस्तुतः सः उन्मत्तः भवति यतः तस्य मनः बहुधा तस्मिन् विचारे समर्पितं भवति तथा च उपभोगपीडितः इति विश्वासः दत्तः चेत् तस्य विचारेण एतावत् चिन्ता भवति यत् वास्तवतः उपभोगस्य विकासः भवति तथैव यदि कश्चित् पुरुषः सः उपभोगपीडितः इति विश्वसिति तर्हि तस्मिन् विचारे एतावता चिन्ता भवति यत् वस्तुतः तस्मिन् पुरुषे उपभोगस्य विकासः भवति मनुष्यस्य मनः तादृशं आसक्त भवर्थ्यमस्तवात्मा शीघ्र भूमतन्यं प्रति गंछति तरी सूम चैतने आसक्त भवि एक आसक्ति भक्ति अस्त सोहम विचारे जीवात्मा पूर्णतः सामर्ता सैन य एकस्मिन् दिने तत् भवितुमर्हति एवं भक्तिः अथवा आसक्तिः अथवा भूमचैतन्यस्य आह्वानं कञ्चनपुरुषं तत्सदृशं करोति भक्तिः न प्रार्थना न भूमा धूमाचैतन्येन सह विलीनता प्राप्तुमिच्छा अथवा मुक्तेः इच्छा अपि भक्तिद्वारा अनुग्रहस्य प्रार्थना इति केचन तु वदन्ति अतः सा इच्छापि प्रार्थना एव इति एवं नास्ति यतोहि मानवतायाः निर्माणे ईश्वरस्य एकमात्रमुद्देशमस्ति यज्जीवात्मनः ईश्वरसदृशी भक्तिः स्यात् येन सः जीवात्मा परमपदं प्रति गन्तुम् शक्नोति इयमेव ईश्वरस्वैच्छ अस्यां सृष्टौ सर्वं तदुद्दिश्य वर्तते अपि च ईश्वरं प्रति प्रचोदितं वर्तते यस्य उद्देश्यस्य कृते मनुष्यः जन्म प्राप्तं तस्य उद्देश्यस्य पूर्त्यर्थं कश्चित् भक्तिद्वारा प्रयत्नं करोति अथवा ईश्वरस्य इच्छायाः सिद्ध्यर्थं सः अनुग्रहार्थं कामपि प्रार्थनां करोति यद्यपि कश्चन प्रयत्नं न करोति अथवा तत् पन्थानं विसृजति तथापि सः शीघ्रं वा पश्चाद् पश्चाद्वा पुनः तदनुसरणं करोति अतः भक्तिः न वा प्रार्थना न वा ईश्वरस्य स्तुतिः प्रार्थना स्तुतिः च किमपि फलं प्राप्तुं साहाय्यं न कुरुतः केवलं समयस्य अपव्ययः एव भक्तिः एव सा रितिः अस्ति यया कश्चन सम्पूर्णतया भूमाचैतन्ये आसक्तः भवितुमर्हति सा एव एक च एकमात्रः मार्गः अस्ति येन परमपदं प्रति गमनं शीघ्रतमं भवति अथ दत्तमस्ति यदा पूर्वं वयं चर्चितवन्तः प्रार्थना वा स्तुति वा प्रशंसागुणगानं वा तत्सर्वं समयस्य एव व्ययः भवति तत्र किमपि लाभः नास्ति अतः किं करणीयं तर्हि यत् पृच्छामः चेत् तत्र वयं जानीमः यादृशी भावना यस्य सिद्धिर्भवति तादृशी अस्माकं कृते भवत् ईश्वरेण दत्तं यदस्ति मनसः तस्य विकासः आवश्यकः तस्य विकासः करणीयं कथं करणीयं कीदृशः अस्माकं चिन्तनं भवेत् किमर्थमित्युक्ते यादृशी चिन्तनमस्ति तादृशी एव मनसस् मनः अपि तादृशमेव वर्तते अतः उदाहरणरूपेण अत्र दत्तमस्ति कोऽपि अहमुन्मत्तः इति चिन्तयति चेत् सः तस्य मनसि तादृशः विचारः एव स्यात् सः वस्तुतः तत्र कोऽपि दोषः न स्यात् तस्य मनसि परन्तु सः चिन्तयित्वा एव तद् दोषं तत्र स्थापयति अहम् उन्मत्तः इति तादृशम् एतादृशं भावना वर्तते उपभोगपीडितः इति विश्वासः तत् अहं हम... गतवती भगिनि इत्युक्ते सर्वदा जगति यानि वस्तूनि सन्ति तेषां विषये एव चिन्तनं करोति चेत् तद्वद् भवति तावदेव मनः स्थूलं भवति तस्य हा ओके अस्तु तत्र यस्य मनसि तादृशं चिन्तनं वर्तते केवलं लौकिकवस्तूनि एव आवश्यकं जीवनधारणस्य कृते तदेव लक्षणं भोगः एव मूल चिन्तनं भवति तेषां यत्किमपि एतद जगति वर्तते तत्सर्वं मम भोगाय एव एतावत् चिन्तनमस्ति चेत् तत्र तेषां मनः अपि तेषां मनसि अपि विकारः भवति तत्र विकासः न विकारः तत्र स्थूलः भवति मनः सूक्ष्म प्रति गतिं तत्र न भवति मनसि मनसि तद् स्थूला भवति स्थूला भवति अनन्तरं तत्र अस्ति अतः मनुष्यस्य मनसि यादृशी आसक्तिः अस्ति तादृशी एव तस्य मनसः विकासः भवति अतः आसक्तिः कीदृशः भवेत् इति पृच्छामः चेत् तत्र भक्तिः भवेत् भक्तिः यद् भूमाचैतन्ये एव अस्माकम् आसक्तिः भवेत् विचारः अस्ति कीदृशः विचारः भवेत् सोहमिति विचारः भवेत् अस्माकं मनसि तर्हि एतादृशं यदा सोहं विचारस्य विचारे अस्माकं पूर्णतया आसक्तिः भवति तदा एकसमर्पणं भावमपि उत्पन्नं भवति अतः भक्तिः वा आसक्तिः वा कस्य कृते इति कृ पृच्छामः चेत् भूमचैतन्यस्य वा ईश्वरस्य कृते भवति इयम् इयं भक्तिः प्रार्थना वा स्तुतिः समानं वा न ना तादृशं नास्ति तत्र भक्तिः भिन्ना भवति प्रार्थनावस्थितिः भिन्नः अस्ति भूमचैतन्येन तत्र यदा भक्तिः कुर्मः तेन किमपि पुनर्प्राप् पुनर्प्राप्तिः इच्छा न वर्तते भक्तिः तु यत्किमपि अस्माकं समीपे अस्ति तस्य समर्पण इच्छया एव वर्तते न तु चाटुवचनेन कस्मान् अपि प्रशंसां कृत्वा तेन तद्प्रशंसावचनेन किमपि प्राप्तुं तत्र तादृश ताद अभिप्रायः नास्ति अत्र तु सम्पूर्णतया केवलम् ईश्वरे विलीनताभावः वर्तते यत्किमपि अहं भावः अस्ति तस्य पूर्णतया समर्पणम् किञ्चित् अधः अत्र तत् भूमचैतन्येन सगुण विलीनता एव इच्छा वर्तते चेत् तदेव मुक्तिः अस्ति परन्तु कोपि तदपि वक्तुं न शक्यते खलु मुक्तिः इच्छा अपि इच्छा एव खलु यदा वयं वदामः किमपि इच्छा न वर्तते केवलं समर्पणं तत्र तत्र किमपि अस्ति यदा ईश्वरः यदा सृष्टिः सृष्टेः uh, रचना कृतमासीत् तत्र एकः उद्देश्यमासीत् सर्वे जीवाः अपि मुक्तः स्यात् यादृश ईश्वरः मुक्तः अस्ति तादृशमेव सर्वे जीवात्मा अपि तादृशपदं तादृशपदं प्राप्तुं शक्यते तदेव ईश्वरस्य अतः तद् अस्माकम् इच्छा भवति वा तत्र मुक्तिः इच्छा तद् तत्र किञ्चित् संशयः अस्ति मुक्तेः इच्छा अपि इच्छा वा तस्य एव अस्माकम् इच्छा इदानीम् अतः तयोः इच्छयोः भेदः बेदा न भेदः नास्ति इति कृत्वा प्रार्थना किमपि नास्ति यतोहि तत्र तदेव लक्ष्यं खलु परमात्मनः सृष्टेः लक्ष्यं किम् इति चेत् तत्र प्रत्येकं जीवात्मा परमात्मना सह ऐक्यं प्राप्नुयात् इति एव परमात्मनः इच्छा यदि मनुष्यः सिद्धः भवति पशुजी जीवनं तत्र पशुजीवनस्य पालनं कृत्वा कृत्वा कृत्वा कदाचित् तस्य चक्षुः अन्तश्चक्षुः उद्घाटितः उद्घाटितं भवति तदानीं सः सः पृच्छति परमात्मानं प्रति पृच्छति हे परमात्मा मार्गप्रदर्शनं करोतु मम मुक्ति आकाङ्क्षा इतः अग्रे पशुजीवनम् मास्तु मुक्ति आकाङ्क्षा अस्ति इति यदा सः पृच्छति तत्तु प्रार्थना नास्ति यतोहि परमात्मनः लक्ष्यस्य अनुगुणमेव अस्ति तत् प्रार्थना नास्ति प्रार्थना मम कृते किमपि ददातु इति नास्ति तत् अतः आकाङ्क्षा इति तदेव लक्ष्यमस्ति तत्र सृष्टेः लक्ष्यमस्ति तदनुगुणं वयं तादृशस्तरं वयं प्राप्नुमः चेत् तदानीं सम्यक् एव तद् प्रार्थना नास्ति तत्र तत्र अन्यत् किमपि वयं न इच्छामः मम मार्गदर्शनं करोतु अहम् अग्रगतिं प्राप्तुम् इच्छामि इति वयं पृच्छामः चेत् तत्र तु तत्र स्वार्थभावना नास्ति तद् कथं भवति चेत् भक्तिद्वारा एव तादृशम् अग्रे गन्तुं शक्यते इति त उदेश्यस्य किमस्ति परिपूर्णता कथं भवति तद् उद्देश्ये यदा ईश्वरस्य सृष्टेः उद्देश्यमासीत् सर्वे जीवाः मुक्तात्मा भवन्तु इति तर्हि तत् तर सिद्ध्यर्थं ईश्वरस्य इच्छायाः सिद्ध्यर्थं स्थानवात्मकं किमपि प्रार्थनां न करोति यद्यपि कश्चन प्रयत्नं न करोति अथवा तत् पन्थानं विसृजति तथापि सः अत्र अस्ति यदा पूर्वे तु जनाः एतादृशप्रयत्नं न कुर्वन्ति ते न जानन्ति अपि ईश्वरी इच्छा किं ते सर्वदा स्वार्थ इच्छा वृत्यर्थमेव प्रार्थनां कुर् परन्तु यदा तेषाम् अन्तःचक्षोः उद्घाटनं भवति तदा ते चिन्तयन्ति एतादृशः केवलम ईश्वरस्य इच्छा एव मम इच्छा इति मुक्तेः इच्छा एव मुक्तेः आकाङ्क्षा एव वर्तते तेषां तर्हि कदाचित् ते मार्गात् किमस्ति मार्गात् तेषां पथविभ्रणं भवति परन्तु पुनः ते स्वमार्गम् अनुसरणं कृत्वा पुनः ते एतादृशमार्गे योगमार्गे आगच्छन्ति तत्र अपि भक्तिः एव आवश्यकं न तु प्रार्थना वा ईश्वरस्य स्तुतिः प्रार्थनाया वा स्तुतिः तेषां किमपि फलं लभ्यते वा इति पृच्छामः चेत् तत्र भवितुमर्हति परन्तु सम्पूर्णतया न किमर्थमित्युक्ते यद्वयं दृष्टवन्तः पूर्वं यत् कर्मं कृतवन्तः तस्य फलं तु भवति एव इदानीम् अन्यथा तु कदाचित् भविष्यत् काले अतः एतादृशप्रार्थनास्तुतिः कृत्वा तत्तु केवलं समयस्य अपव्ययः एव अतः भक्तिः एव उत्पादनीयं भवति भक्तिः कीदृशः इत्युक्ते तत्र सर्वं ईश्वरस्य प्रीत्यार्थं यदीश्वरस्य इच्छा वर्तते तदेव मम इच्छा एतादृशभावना भवतु एतादृशभावना भवति चेत् ईश्वरस्य ईश्वरः निश्चयेन अग्रे तेषां नयनं करोति इति एव न जानामि वा उक्तवती सम्यक्तया उक्तवती इत्युक्ते अत्र अत्र विषयः कः इति चेत् भक्तिः इत्युक्ते किमपि वयं न इच्छामः मम कृते एतद् ददातु इति किमपि प्रार्थना प्रार्थनायाः स्तुते स्तुतेः भक्तेः स एव भेदः यदा भक्तिभावः भवति तदानीं हृदि केवलं शुद्धप्रीतिः अस्ति तर्हि तत्र पञ्चविधभक्तिः अस्ति इति वयं जानीमः खलु तामसिकभक्तिः राजसिकभक्तिः सात्विकीभक्तिः रागानुगाभक्तिः रागात्मिका भक्तिः तत्र प्रथमत्रयं वस्तुतः भक्तिः एव नास्ति यतोहि ते किमपि पृच्छन्ति मम कृते एतद् ददातु तद्ददातु तामसिकी तामसिकीभक्तिः तस्मिन् परमपुरुषः अस्ति इति अङ्गीकरोति परन्तु परमा हे परमात्मा मम ये शत्रवः सन्ति तेषां नाशं करोतु इति प्रार्थना तर्हि वस्तुतः एतत्तु भक्तिः एव नास्ति द्वितीयः अस्ति द्वितीया भक्तिः अस्ति राजसिकीभक्तिः यत्र जनाः प्रार्थयन्ति यत् मम कृते धनं ददातु यशः ददातु मम पुत्रस्य विवाहः भवतु इति एवं रीत्या ते किमपि लौकिकस्तरे किमपि पृच्छन्ति खलु तत्तु राजसिकीभक्ति सात्विकीभक्तिः कदा भवति इति चेत् यदा कस्यचित् स्वास्थ्यं सम्यक् नास्ति तत्र बहुक्लेशाः अनुभवन्ति तत्र वृद्ध वृद्धावस्थायां तदानीं ते प्रार्थयन्ति इतः अग्रे अहं जीवितुं न इच्छामि मम कृते मुक्तिं ददातु इति प्रार्थयन्ति वस्तुतः एतत् तृतीयमपि वास्तविकी भक्तिः नास्ति यतोहि ते किमपि स्वार्थभावनया किमपि पृच्छन्ति खलु नास्तिकस्य अपेक्षया यः परमात्मा इति यः वदति यः आग्नास्टिक् अस्ति परमात्मा इति वदति तस्य अपेक्षया एतद् सम्यक् परन्तु वस्तुतः अयं तु शुद्धा भक्तिः नास्ति केवला भक्तिः द्विविधा रागानुगाभक्तिः रागात्मिकाभक्तिः रागानुगाभक्तौ वदति हे परमपुरुष परमपुरुष तस्य हृदि प्रीतिभावः अस्ति परन्तु किमर्थं परमात्मानं परमात्मानं प्रति भक्तिभावः अस्ति इति इति चेत् यतोहि तस्य कृते आनन्दः लभते इति कृत्वा तत्र सः तस्य हृदि भक्तिभावः अस्ति अन्यत् लौकिकवस्तु किमपि सः न पृच्छति रागात्मिका भक्तौ सह किमपि न इच्छति स्वस्य कृते आनन्दः भवतु तत्र भक्तिभावेन मम आनन्दः भवति इति अपि सः न इच्छति केवलं परमात्मा भवान् तृप्तः भवतु इति एव सः इच्छति अतः उच्चतरभक्तिभावः तु रागात्मिका भक्तिः यत्र किमपि न इच्छति केवलं स्वस्य स्वस्य अस्तित्वमेव न भवति तस्य अहङ्कारः एव न भवति सः तु सम्पूर्णतया विस्मरति स्वस्य अस्तित्वं विस्मरति समङ्गम्पूर्णतया परमात्मनः भावे तत्र तादृशभावना तस्य हृदि भवति भक्तिभावः भवति तत्र योगनिष्यजीवनस्य करणेन साधनायाः करणेन एतादृशभक्तिभावस्य वर्धनं भवति परमात्मानं प्रति आकर्षणम् इतोपि वर्धितं भवति येन सः अपि स्वमपि विस्मरति परमात्मनि विलीनं भवति अयमेव उचितः मार्गः तत्र उच्चतर उच्चतरमार्गः अस्ति अन्य अन्यमार्गाणाम् अपेक्षया ज्ञानमार्गस्य अपेक्षया अन्यमार्गाणाम् अपेक्षया अत्र अयं मार्गः उचितः मार्गः अस्ति अनेन परमात्मानं प्रति तादृश आकर्षणं भवति अत्र परमात्मा तु रसः रसो वयसः परमात्मा रसः अस्ति रसं विना परमात्मनः प्राप्तिः न भवितुम् अर्हति तर्हि रसः कथं वर्धनीयः इति चेत् भक्तिभावेन एव रसः वर्धितः भवति यदि हृदि भक्तिभावः नास्ति तर्हि स्थूलज्ञानी अस्ति तर्हि तर्हि तत्र सः मार्गः तु तत्र किं मार्ग क्लिष्टकरः मार्गः अस्ति तस्मत् तस् तस्मात् मार्गात् कश्चन सरलरीत्या पतितः भवति यतोहि तस्य हृदि भक्तिभावः नास्ति भक्तिभावं विना तत्र अग्रगतिः न भव भवति यतोहि अहङ्कारस्य वर्धनं भवति यदा अधिकं ज्ञानं भवति तदानीम् अहङ्कारस्य वर्धनं भवति अतः भक्तिभावं विना अग्रगतिः कदापि न भवति सः पतितः भवति अतः अस्मिन् मार्गे योगनिष्ठजीवनमिति मार्गे तत्र भक्तिभावस्य प्राधान्यं वर्तते भक्तिभावेन अस्माकम् अग्रगतिः अवश्यमेव भवति इति अत्र विषयः अस्ति तर्हि अत्र भगिनि भवती यत्र पठितवती तत्र किमस्ति इति चेत् यदा वयं सिद्धाः भवामः तदानीं परमात्मानं पृच्छामः मार्गस्य प्रदर्शनं करोतु मुक्तिमार्गस्य प्रदर्शनं करोतु इति वयं पृच्छामः तत्तु प्रार्थना नास्ति यतोहि तत्तु ईश्वरस्य इच्छानुगुणम् अस्ति तदेव ईश्वरस्य उद्देश्यं वर्तते अतः कश्चन भक्ति भक्तिद्वारा सः प्रयत्नं करोति कश्चन पृच्छति कश्चन पृच्छति मम मम कृते मार्गप्रदर्शनं करोति इति स करोतु इति पृच्छति तत्सर्वं सम्यक् एव अस्ति तत् तद् प्रार्थना इति वक्तुं न शक्नुमः यद्यपि वयं किमपि न पृच्छामः तथापि अद्य वा श्वः वा कदाचित् वयं परमात्मानं परमात्मनः सविधे वयं गच्छामः समीपे गच्छामः यतोहि ब्रह्मचक्रे तदेव नियमः अस्ति खलु तस्य परमात्मा पुरुषोत्तमः केन्द्रे वर्तते तस्य समीपे वयं गच्छामः अथवा तस्मात् दूरं गच्छामः अस्माकं सर्वदा गतिः भवति एव इदानीं दूरमस्ति दूरं वयं स्मः चेत् श्वः अपि तथैव वयं नास्ति कदाचित् अस्माकं मनः वर्धते वयं तस्य समीपे वयं गच्छामः अतः वयं पृच्छामः पृच्छामः वा न पृच्छामः वा अस्माकं तु अवश्यं भवति तस्य समीपे वयं कदाचित् वयं गच्छामः अस्मिन् जन्मनि वा अथवा जन्मान्तरे वा तस्य समीपे अवश्यमेव गच्छामः तदेव सृष्टेः नियमः अस्ति इति अत्र दत्तमस्ति अवगतं वा भगिनि अस्तु धन्यवादः धन्यवादः तर्हि अत्र स्थगनं कुर्मः समयः अतीतः क्षम्यतां तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः नमस्कारः